हरि श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे एकत्रिंश सर्गः श्रीराम लक्ष्मणसंवादः श्रीरामस्य आदेशेन लक्ष्मणस्य सुवृज्जनानाम् आमन्त्र्य दिव्यम् आयुधमानीय च वनम् गन्तुम् उद्यम श्रीरामेण तम् प्रति ब्राह्मणेभ्यो धनम् वितरितुम् स्वकीय विचारस्य प्रकटनम् एवम् श्रुत्वा सुसंवादम् लक्ष्मणः पूर्वमागतः बाष्पुर्या कुलमुख शोकम् सोढुम् अशक्नुवन् स भ्रातृचरणो गाढम् निपीड्य रघुनन्दनः सीतामुवाचातिशयशाम् राघवम् च महाव्रतम् यदि गन्तुम् कृता बुद्धि अहम् त्वाम् अनुगच्छ्यामि वनम् अग्रे धनुर्धर मया समेतोऽरण्यानि रम्याणि विचरिष्यसि पक्षिभिः मृगयूथ च समन्ततह समन्ततः न देव लोकाक्रमणम् नामरस्तम् अहम् वृणे ऐश्वर्यम् चापि लोकानाम् विना एवम् ब्रुवा वनवासाय निश्चितः रामेण बहु भीतान् त्वयि निषिद्ध पुनरब्रवीत् अनुज्ञात तु भवता पूर्वमेव यदस्म्यहम् किमिदानीम् पुनरपि क्रियते मे निवारणम् यदर्थम् प्रतिषेधो मे क्रियते गन्तुमिच्छतः एतदिच्छामि विज्ञातुम् संशयो हि ममानघ ततो ब्रवीन्मह तेजा रामो लक्ष्मणमग्रतः स्थितम् प्रागामिनम् धीरं, याचमानम् कृताञ्जलिम् स्निग्धो धर्मरतो धीर सततम् सत्पथे स्थितः प्रियः प्राणसमो वश्यो विजेयश्च सखा स्वय गो भ्यति कौसल्या सुम्रा वशस्वनी अभी वर्षति काम पजन्य पृथ्वी स काम पाश पर्यस्त महातेजाहीपतिरजद प्राप्य नृप से शपति सुत दुखिता न कीष्यति शोभनम न भरीष्यति कौसल्यां सुमित्रां च दुःख सुदुःखिताम् भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः तामाध्यां स्वयमेवेह राजानुग्रहणे न वा स्वमित्रे भरकौसल्याम् उक्तमर्थं नमम् चर एवं मयि च ते भक्ति भविष्यति सुदर्शिता धर्मज्ञ गुरुपूजायाम् धर्मश्चाप्युत चाप्य तुलोमः एवं गुरुश्व सौमित्रे मत्कृते रघुनन्दन अस्माभिर्विप्रहीणाय भी मातुर्नो न भवेत् सुखम् एवम् उक्तः तु रामेण लक्ष्मण श्लक्ष्मयागिरुवाच तदा रामम् वाक्यज्ञो वाक्यकोविदं तये तवैव ते तेजसा वीरे भरते पूजयिष्यति कौसल्याञ्च सुमित्रां च प्रियतो नास्ति संशये यदि दुःस्थो न रक्षेते भरतो राज्यमुत्तमम् प्राप्य दुर्म च वीरे गर्वेण च विशेषतः तम् अहं दुर्मतिम् क्रूरम् वदिष्यामि न संशय हे तत्पक्षान् अपि तान् सर्वान् त्रैलोक्यम् अपि किन्तु स कौसल्या विभूयात् आर्या सहस्रम् मद्विधानपि यस्या सहस्रं ग्रामाणां सम्प्राप्तुमुपजीविनां तदात्मय भरणे चैव मम मातुः तथैव च पर्याप्ता मद्विधानां च भरणाय मनस्विरे कुरुष्व मामनुचरं वैधार्म्यं नैह विद्यते कृतार्थ कृतार्थोऽहम् भविष्यामि तव चार्थ प्रकल्प्यते धनुरादाय्य सगुणम् खनित्र पिटकाधरः अग्रतस्थे गमिष्यामि पन्थानम् तव दर्शयन् आहरिष्यामि ते नित्यम् मूलानि च फलानि च वन्यानि च धान्यानि स्वाहार्हाणि तपस्विनाम् भवान् तु सः वैदेह गिरितानुशुदंस्यते अहम् सर्वम् करिष्यामि जागृतः स्वपदश्च ते रामस्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् व्रजापृच्छ स्व सौमित्रे सर्वम् एव सुरजनम् महात्मा वरुण जनकस्य मायन्ये धनुषी रोद्रदर्शने अभेद्ये कवचे दिव्ये तूणि चाक्षय्य सायकौ आदित्य विमला भूत्तौ खड्गो हे म परिष्कृतौ सत्कृत्य नेतम् सर्वम् एतदाचार्य सद्मलि श्वः जन्मामन्त्र्य वनवासाय निश्चितः इक्ष्वाकु गुरुमागम्य जग्राहायुधमुत्तमम् तत् दिव्यम् राजशादूर सत्कृतम् माल्यभूषितम् रामाय दर्शयामास सौमित्री सर्वमायुधम् तम् वा प्रीत्या लक्ष्मणमागतम् कालेन त्वम् आगतः सोम्य काङ्क्षिते मम लक्ष्मण अहम् प्रदातुम् इच्छामि यदिदम् नामकम् धनम् ब्राह्मणेभ्य तपस्विभ्य त्वया सह परन्तप वसन्तिह धृणम् भक्त्या गुरुषु द्विजसत्तमः तेषामपि च मे भूय वसिष्ठपुत्रम् तु सयज्ञमार्यम् सम्मानयाशु प्रवरम् द्विजानाम् अपि प्रयास्यामि वनं समस्तां। अभ्यस्य श्रेष्ठान् अपरान् द्विजातीन् इत्यार्शे श्रीमद् रामायणे वाल्मीकी अधिकारे होद्याकाण्डे सर्गः श्रीसीता